अथ सप्तनवतितमः सर्गः हन्यमाने बले तूर्णमन्योन्यन्ते महामृधे सरसीव महाघर्मे सुपक्षीणे बभूवतुः स्वबलस्य तु घातेन विरूपाक्षवधेन च बभूवद्विगुणम् क्रुद्धो रावणो राक्षसाधिपः प्रक्षीणम् स्वबलम् दृष्ट्वा वध्यमानम् वलीमुखैः बभूवास्यव्यथा युद्धे दृष्ट्वा दैव विपर्ययम् उवाच च समीपस्थम् महोदरमनन्तरम् अस्मिन् काले महाबाहो जयाशा त्वयिमे स्थिता जहिशत्रु च मूम् वीरदर्शयाद्यपराक्रमम् भर्तृपिण्डस्य कालोऽयम् निर्वेष्टुम् साधु युध्यता एवमुक्तस्तथेत्युक्त्वा राक्षसेन्द्रो महोदरः प्रविवेशारिसेनाम् स पतङ्ग इव पावकम् ततः सकदनम् चक्रे वानराणाम् महाबलः भर्तृवाक्येण तेजस्वी स्वेन वीर्येण चोदितः वानराश्च महासत्त्वाः प्रगृह्य विपुलाः शिलाः प्रविश्यारिबलम् भीमम् जघ्नुस्ते सर्वराक्षसान् महोदरस्व सङ्कृद्यः शरैः चिच्छेदपाणिपादोरु वानराणाम् महाहवे ततस्ते वानराः सर्वे राक्षसैरर्दिता भृशम् दिशो दशद्रुताः केचित् केचित् सुग्रीवमाश्रिताः प्रभग्नम् समरे दृष्ट्वा वानराणाम् महाबलम् अभिदुद्रावसुग्रीवो महोदरमनन्तरम् प्रगृह्य विपुलाम् घोराम् महीधरसमाम् शिलाम् चिक्षेप च महा तेजस्तद्वधाय हरीश्वरः तामापतन्तीम् सहसा शिलाम् दृष्ट्वा महोदरः असम्भ्रान्तस्ततो बाणैर्निर्विभेदुरासदा रक्षसा सालमुत्पाट्य चक्षेप तम् स चिच्छेदनैकथा शरैश्च विददारैनम् शूरः परबलार्दनः सददर्श ततः क्रुद्धः परिघम् पतितम् गदाम् जग्राहसङ्क्रुद्धो राक्षसोऽथमहोदरः गदापरिघहस्तौ तौ युधिवीरौ समीयतुः नर्दन्तौ गोवृषप्रख्यौ घनाविवसविद्युतौ ततः क्रुद्धो गदाम् तस्मै चिक्षे परजनीचरः ज्वलन्तीम् भास्कराभासाम् सुग्रीवायमहोदरः गदाम् ताम् सुमहाघोरामापतन्तीम् महाबलः सुग्रीवो रोषताम् राक्षः समुद्यम्य महाहवे का तस्य परिघेण हरीश्वरः पपाततरसा भिन्नः परिघस्तस्य भूतले ततो जग्राहतेजस्वी सुग्रीवो वसुधातलात कायसम् मुसलम् सर्वतो हेमभूषितम् सतमुद्यम्य चिक्षेप सोऽप्यस्य भिन्ना वन्योन्यमासाद्यपेततुस्तौ महीतले ततो भिन्नप्रहरणौ तेजो समीयतुः तेजोबलसमाविष्टौ दीप्ताविवहुताशनौ जघ्नतुस्तौ तदान्योन्यम् नदन्तौ च पुनः पुनः तलैश्चान्योन्यमासाद्यपेततुश्च महीतले उत्पेततुस्तदातूर्णम् जघ्नतुश्च परस्परम् भुजैश्चिक्षिपतुर्वीरा वन्योन्यमपराजितौ जग्मतुस्तौ श्रमम् वीरौ बाहुयुद्धे परम् तपौ आजहारतदा खड्गमदूरपरिवर्तिनम् राक्षसश्चर्मणा महावेगो महोदरः तथैव च महाखड्गम् चर्मणा सः जग्राहवानरः वेगवत्तरः ततो रोषपरीताङ्गौ नदम् तावभ्यधावता उद्यतासीरणे हृष्टौ युधिशस्त्रविशारदौ दक्षिणम् मण्डलम् चोभौ सुतूर्णम् सम्परीयतुः अन्योन्यमभिसङ्क्रुद्धौ जये प्रणिहिता बुभौ महावेगो वीर्यश्लाघी महोदरः महावर्मणि तम् खड्गम् पातयामास लग्नमुत्कर्षतः खड्गम् खड्गे न कपि कुञ्जरः जहारसशिरस्त्राणम् कुण्डलोपगतम् शिरः निकर्तशिरसस्तस्य पतितस्य महीतले तद्बलम् राक्षसेन्द्रस्य दृष्ट्वा तत्र हत्वा तम् वानरैः ननादमुदितो हरिः शुक्रोध दशग्रीवो राघवः विषण्णवदनाः सर्वे राक्षसादीन चेतसः विद्रवन्त्य ततः सर्वे भयभित्रस्त चेतसः महोदरम् तम् विनिपात्य भूमौ महागिरेः कीर्ण विवैकदेशम् सूर्यात्मजस्तत्र रराजलक्ष्म्या सूर्यस्व तेजोऽभिरिवा प्रधृष्यः अथ विजयमवाप्य समरमुखे सुरसिद्ध यक्ष अवनितलगतैश्च भूतसङ्घैर्हर्ष समाकुलितैर्निरीक्ष्यमाणः इत्यार्षे श्रीमद् रामायणे आदिकाव्ये युद्धकाण्डे सप्तनवतितमः